विश्वे देवांस्तथा साध्याञ्छान्त्यर्थम् भरतर्षभा स्वस्ति तेस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत दिव्येभ्यश्चैव भूतेभ्यो चान्ये परिपन्थिनः वैशम्पायन एवमुक्त्वा शिशः कृष्णा विरराम यशस्विनी ततः प्रदक्षिणम् कृत्वा भ्रातृन्धौम्यं च पाण्डवः प्रातिष्ठतमहाबाहु प्रगृह्यरुचिरम् धनुः तस्य मार्गादपाक्रामं सर्वभूतानि गच्छतः युक्तः स्य इन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः सोऽगच्छत्पर्वतांस्तात तपोधननिषेवितान् दिव्यम् हैमवतम् पुण्यम् देवजुष्टम् परन्तपः अगच्छत्पर्वतम् पुण्यमेकाह नैव महामनाः मनोजवगतिर्भूत्वा योगयुक्तो यथानिलः हिमवन्तमतिक्रम्यगन्धमादनमेव च अत्यक्रामत्सदुर्गाणीतिवारात्रमतन्द्रितः